गणेशपुराणं क्रीडाखण्डम् अध्यायं 73 व्यास उवाच काधं ब्रह्मञ्चिव गृहे मयूरेश्वरसंज्ञितः अवतीर्ण किमर्थं वा किं च तच्चरितं पितः मयूरेश्वर संज्ञा च कथं जाता विनायके ये तन्मे सर्वमाचण् तृप्या मिनः क्वचिद क उवाच त्रदायुगे भवत्पुरा स हतस्तेन बलिनावतीर्णेन शिवालये अत्राप्युदाहरन्तीममितिहासं पुरातनं शौनकस्य च संवादं राज्ञा च विषये राजा गण्डकेन गरे शुभे चक्रपाणिरिधिख्यातः साक्षाद्विष्णुरिवापरः न शक्याः शेषेणास्य कदाचन तेजसा लोपयन्मानं लावण्येन च मन्मथं मत्या बृहस्पतिं स्कन्धं विक्रमेण बलेन च येनेयं सकला पृथ्ववीक्षणेन वशवर्तिनी कृता सर्वे च राजान सेवायां विनियोजिताः तुरङ्गाणां गजानां च पदादिना जयैषिणां रथानां च न यस्यास्ति सङ्ख्यानं जगदीतले साक्षाल्लक्ष्मीस्थिरा यस्य गृहे दर्शनगोचरा रत्नकाञ्चनमुक्ताभिरनिशं भासयद्दिशः भद्रं भद्रकरं यस्य लोकनामलकोपमं यस्यामात्यौ महाबुद्धिः साम्बश्चैव सुबोधनः सेवन्तौ स्वामि कार्यार्थे तृणीकृत्य स्वजीवितं यस्याीत् प्रमदारम्या कुमुदानि विकासन् देदि वा यन्मुखचन्द्रतः अनेकभूषादीप्त्याय नाशयित्वाखिलं तमः पादिव्रत्य गुणान् द्रष्टुं यान्ति सर्वापदिव्रताः एवं राजा बुधो मान्यः सदा विष्णुपरायणः पुराणश्रवणे शक्तो धर्मशास्त्रपरायणः सन्दत्यारहि दत्सोध दुःखमापदिवानिशम् असत्यम् जायते यद्य तत्तन्नश्यदि तत्क्षणाद अनेकव्रतदानानि यज्ञांश्च कृतवान् बहोन् तदस्य राजा कस्मिंश्चित् समये निजभाज्यया अकार्यप्रकृतिपौरान् विरक्तो राज्यसम्पदि उवाच सर्वान् दण्डे च कोशं राज्यं त्यजेऽधुना किम पुत्रस्य राज्येन मेधुना यानि कर्माणि च मया पुत्रार्थे चरितानि च ईश्वरार्पणबुद्ध्या कृताने स्युर्यदा तदा मुक्तिस्यादुभयो पूर्वजन्मकर्मक्षयोऽपि च गतमायुर्वृथा लोकावनं यास्ये मुदाधुना सर्वं प्रकृतिसा कृत्वा यूयं तद्वाक्यकारिणः गमिष्ये संवनं लोकास्तपस्तप्तुं हिताय वै कदाचिदिष्टसिद्धिश्चेत्पुनर् यास्ये निजां ध्रुवमाज्ञां मम पुनः प्रयच्छतादुना जनाः एवं श्रुत्वा सर्वे दुःखितमानसाः अश्रुधाराप्रमुञ्चन्धप्रोचुस्तं नृपसतमं पौराऊजुः जननीजनकस्त्वाम् नः कथं गदः किमार्थं त्यज्यसे नस्त्वमपराधं विना प्रभो विना भवन्तं नो जन्म वृद्धैवमादरं शिशोः वयमाप्यनुयास्यामो यास्यामो यादि भवान् प्रभो क एवं वदत्सु लोकेषु गदो मुनिः शौनको मुनिशार्दूलो जादवेदायिवापरः वेदवेदाङ्गशास्त्राणां वक्दात्रैलोक्यविश्रुतः शक्रादिसुरवन्ध्यो यो भूतभव्यभविष्यविद तं दृष्ट्वा पुरतो राजा ननामोद्धाय स्वासनेत्तमुपावेश्य पुपूजपरया मुदा भुप्तवन्तं च विश्रान्तं पादसंवाहनादिभिः चक्रपाणिरधोवाच पुण्यं किं फलितं मम यज्जातं दर्शनं तेद्य सर्वपापहरं शुभं सर्वकामप्रदं नृणां दुर्लभं पापकर्मणाम् तथ प्रोजे मुनिश्चक्रपाणिम् नृपदिसत्तमम् सन्धुष्टपरया भक्त्या प्रश्रयेण दमेन च मुनिरुवाच मा गुरुराजेंद्र माचराज्यं परित्यज पुत्रस्ते भविद सम्यक् मद्वाख्यान्नात्र संशयः मया वाणीनोक्तपूर्वानृदा हास्येऽपि कर्हि चिदक उवाच एवमाकर्ण्यतद्वाक्यं जहृषे राजसप्तमः अलङ्कारान् ददौ तस्मै रत्नकाञ्चन निर्मितान् वस्त्राणि च महार्हाणि न च जग्राहवै मुनिः पुनः प्रोवाच निःस्पृहाः सर्वभोगेषु सर्वभूतहिते रथाः सृष्टिः संहारकरणे समर्था करुणाब्धयः साधूनां दर्शनरता समलोष्टास्म विद्वत्सु नैव कमलास्थानं धत्ते कदाचन तस्मान्नेदं ग्रहीष्यामि काञ्चनं वसनं शुभं तीर्थयात्राप्रसङ्गेन त्वामहं समुपागतः दिनानि च व्यतीतानि बहूनि तव दर्शने क उवाच पुनस्तौ नेमदुत्सम्यग्दम्पदीशौनकं मुनिं पप्रच्छतुपायं तं सन्तानोत्पादनेक्षमं सर्वत्र तपो यज्ञान् मत्वा दानानि वैवृध ततो ब्रवीन्मुनिः सौरं व्रतं सर्वार्थदं नृणाम् अनेकजन्मपानां शमनं पुत्रपौत्रदम् पुनिरुवाच मासमात्रं व्रतं कार्यमारभ्य भानुसप्तमी कृत्वाभ्युदयिकं श्राद्धं मातृपूजनपूर्वकम् अभ्यर्च्य गणनार्थं च स्वस्तिवाच्य द्विजर्षभान् सुवर्णकलशैस्ताप्यसौवर्णं रविमण्डलम् उपचारैषोडशभिर्भक्तिभावसमन्वितः रक्तचन्दनमिश्रैश्च तण्डुलैः कुसुमैरपि रक्तैर्ननाविधैरत्नैफलैश्च विविधैरपि अर्घ्यैर्द्वादशसङ्ख्यैश्च नमस्कारैः परिक्रमैः स्तुदिभिप्रार्थनाभिश्च प्रार्थयेत् परमेश्वरं ततो लक्षनमस्कारान् कुर्वीद कारयितवा प्रत्यहं लक्षभिप्रांस्तु भोजयेत् परया कामेकं प्रत्यहं दद्याद्वेदज्ञाय कुटुम्बिने ब्रह्मचर्येण तिष्ठेच्च सपत्नीको नृपोत्तमा दीनान्तकृपणेभ्यश्च दद्या दन्नं दयान्वितः मासान्ते सर्वसंभारान् ब्राह्मणाय समर्पयेद् एवं व्रदे कृते राजन्पुत्तस्ते मत्प्रसादतः भविष्यति महाख्यातः सूर्यभक्तियुतशुचिः क उवाच एवं व्रतं समादिश्य शौनकोन्दर्हितस्तदा ततश्चकारनृपतिर्यथाधिष्ठं व्रदं तु तद् पत्न्याः सह विनीतात्मा सूर्यभक्तिपरायणः द्राह्मणान् भोजयामास यथेच्छं लक्षसङ्ख्यया उपवासयुद्धः पत्न्यामासमात्रं बभूवसः कोदानं च नमस्कारांश्चक्रे चाकारयद्विजैः सूर्यमन्त्रं जपन्नित्यं तन्नामस्मरणं सदा तदा कदाचित्तत्पत्नी रात्रौ स्वप्ने ददर्शतं निजभर्तृद्विजरूपं सवितारं मनोरमे चकमे कामरूपं तं प्रपीडिता उवाच परितप्ताङ्गी कामो मे बाधदे भृशं रुदुम्मे मे देहि भर्तस्त्वं नो चेन्मृत्युर्भवेन्मम सोऽपि बन्ध्यं विनिश्चित्य तत्पदिं कामुकां च स्वप्न एव भर्दृरूपी सविदा ता मृदुं ददौ सा प्रबुद्धा तदः प्राह समुद्धाप्यनिजं पदिं नियमस्तेन किं ब्रह्मस्त्वया मे रुदुरर्पितः स उवाच ततस्तां तु नाकं व्रतमनाशुभे उपवासरदः क्षीणोरराम रविभक्रीमान् तद पुनः जाने तदञ्चन त्वद्रूपेणैव ध्यायामि सवितारं व्रदे स्थिदा ऋदुजेन च दग्धाहं वह्निनान्तर्गतेनः ततः पुनश्चक्रपाणिरुचेता प्रियभाषिणीं नृप उवाच तुष्टोऽसौ सविदाकान्त नमस्कारैश्च भोजनैः ब्राह्मणानां गवां दानैरुपवासैर्यपैरपि आवां सिद्धिं ददौ सम्यक् पुत्रस्तव भविष्यति उवाच दिने दिने गर्भवृद्ध उतस्यास्तापोभिवर्धते सा मुमुर्षुश्चन्दनानि सोषीराणि निषेवदे लीलेपाङ्गे च कर्पूरं तापो नास्या शशाम च न चार्द्रवस्त्रपवनैस्ततः सा सखिभिः सह तत्याज सिन्धुतीरे गर्भं गत्वा महत्तरम् आययौ साधविश्रान्ता सखिभिर्निजमन्दिरं निवेद्य भर्त्रेत्यक्दं तं गृहकार्यरता भवद इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुत्पत्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः o um.